अथ श्रीबृहन्नारदीयपुराणे पुरुषोत्तममासमाहात्मे श्रीनारायण नारदसंवादे कुमारीशिवाराधनोद्योगो नाम दशमोऽध्यायः दुर्वासा उवाच षिणुसुन्दरि वक्ष्यामि गुह्याद्गुह्यतरं महत् आख्येयं नैव कस्यापि त्वदर्थं तु विचारितम् न विस्तरं करिष्यामि समासेन ब्रवीमिति इतस्तृतीयः सुभगे मासस्तु पुरुषोत्तमः तस्मिन् स्नातो नरस्तीर्थे मुच्यते भ्रूणहत्ययाम् एतत्तुल्यो न कोऽन्यम् एतत्तुल्यो न कोऽप्यन्यः कार्तिकादिषु सुन्दरीम् सर्वे मासा पक्षाः पर्वाण्यन्यानि यानि च पुरुषोत्तममासस्य कलां नार्हन्ति षोडशीं साधनानि समस्तानि निगमोक्तानि यानि च मासस्यैतस्य नार्हन्ति कलामपि च षोडशीं द्वादशाब्दसहस्राणि गङ्गास्नानेन यत्फलं गोदावरीसकृत्स्नानादि यत्फलं सिंहगे गुरौ तदेव फलमाप्नोति मासे वै पुरुषोत्तमे सकृत्सुस्नानमात्रेण यत्र कुत्रापि सुन्दरी श्रीकृष्णवल्लभो मासो नाम्ना च तस्मिन् संसेविते बाले सर्वं भवति वाञ्छितं तस्मान्निषेवयाशुत्वं मासं तं पुरुषोत्तमं मयापि सेव्यते सोऽयं पुरुषोत्तमवन्मुदा एकदा भस्मसात्कर्तुम् अम्बरीशं कृधा मया मुक्ताकृत्या तदा बाले सुनाभं हरिणा ज्वलत् मामेव भस्मसात् कर्तुं तदानीं प्रेरितं मयि पुरुषोत्तमव्रता देवं तच्चक्रं सन्यवर्तत त्रैलोक्यं भस्मसात्कर्तुं समर्थं तच्च सुन्दरि मय्य जातं तदा मे विस्मयोभवत् तस्माद्भजस्व सुभगे श्रीमन्तं पुरुषोत्तमम् इत्युक्त्वा मुनिषार्दूलु विरराममुनेः सुताम् श्रीकृष्ण उवाच दुर्वासो वचनं श्रुत्वा बाला मूढधियावदत् भाविना प्रेरिता राजन् असूया प्रेरिता सती दुर्वासं मुनिं श्रेष्ठं मनसि क्रोधसंयुताम् बालोवाच न मह्यं रोचते ब्रह्मण्यदुक्तं भवता मुनि कथं माघादयो मास अकिञ्चित् करतां गताः कथं कार्तिकमासं त्वम् ऊनं वदसि तद्वद वैशाखः सेवितः वा न दास्यति सदाशिवादयो देवाः फलदाः किं न सेविता अथवा भुमिमार्तण्डो देवः प्रत्यक्षदर्शनः स किन्न दाता कामानां देवि वा जगदम्बिका गणेशः सेवितः किं वा न संयच्छति कामितं व्यतिपातादिकान् योगान् देवान् शर्वादिकानपि सर्वानुल्लङ्घ्य वदतस्तृपाकिं ते न जायते अयं तु मलिनो मास सर्वकर्मविगर्हितः असूर्यसङ्क्रमः श्रेष्ठः क्रियते च कथं मुनि वेदाहं सर्वदुःखानां पारदं श्रीहरिं परं नान्यं पस्यामि भूदेव चिन्तयन्ति दिवानिशम् रामाद्वा जनकी जाने शङ्करात् पार्वतीपतेः नान्यः कोऽपि महान् देवो यो मे दुःखं व्यपोहति एतान् विहाय विप्रेन्द्र कथं स्तौ श्रीमलं मुनि एवमुक्तं विप्रपुत्र्यां श्रुत्वा सक्रोधनो मुनिर्जाज्ज्वल्यमानो वपुषाम् क्रोधसंरक्तलोचन तथापि न शशापैनां मित्रजां कृपयान्वितः मूढेयं नैव जानाति हिताहितमपूर्णधी पुरुषोत्तममाहात्म्यं दुर्गेयं विदुषामपि किमुताल्पधियां पुंसां कुमारीणां विशेषतः पितृहीना कुमारीयं बाला अतीवोऽग्रतरं शापं मदीयं सहते कथम् इत्येवं कृपया क्रोधं सञ्जहारमनः स्थितं स्वस्थो भूत्वा मुनिप्राहिलाम् दुर्वासा उवाच अहो बाले नमे कोपो मित्रजे त्वयि कश्चन यत्ते मनसि निर्भाग्ये यथा रुचि तथा कुरु अपरं श्रूयतां बाले भविष्यं किञ्चिदुच्यते पुरुषोत्तममासस्य यत् त्वया नादरः कृतः सर्वथा तत्फलं भावि सर्वथा तत्फलं भावि इह्वापरजन्मनि परजन्मनी परं गमिष्यामि नरनारायणालयं न च मन्मित्रं ते पिता यतः हिताहितं न जानासि बालभावाच्छुभाशुभं स्वस्तितेस्तु गमिष्यामि मास्तु कालात्ययो मम अशुभं वा शुभं भावि शक्यते लङ्घितुं कथं श्रीकृष्ण उवाच इत्युदीर्यजगामाशु तामसस्तापसो मुनिः तत्क्षणं निष्प्रभा सा भूत् कालं तत्कालफलदं शिवम् आराधयामि देवेश तपसा पार्वतीपतिम् इति निश्चित्य दुष्करं तत्तपः कर्तुम् आर्षेयी प्रबलमुनिर्वचो विनिन्द्य प्रोद्युक्तान्धकरिपुषे वने वने स्वी लक्ष्मीशं बहुफलप्रदं विहाय सावित्रीमपि तादृशं निरस्य इति श्री श्रीबृहन्नारदीय पुराणे पुरुषोत्तममासमाहात्म्ये श्रीनारायण नारदसंवादि कुमारी शिवाराधनाद् कुमारीशिवाराधनोद्योगो नाम दशमोऽध्यायः श्रीपुरुषोत्तमार्पणमस्तु